अथ कृष्णयजुर्वेदे क्रमपाठे प्रथमकाण्डे सप्तमः प्रश्नः प्रारम्भः पाकयज्ञम् वै पाकयज्ञमिति पाकयज्ञम् वा नो अन्वाहिताग्नेः आहिताग्नेः पशवः आहिताग्नेरित्याहिताग्नेः पशव उप उपतिष्ठन्ते तिष्ठन्तया यदा खलु खलु वै वै पाकयज्ञः पाकयज्ञः सा पाकयज्ञ इति प्रयाजानो याजान् प्रयाजानुयाजान् प्रयाजानो याजान इति प्रयाजो याजान लोके लोके वहिता अवहिता ताम् अवहितेत्यवाहिता ्रियमाणाम् आह्रियमाणामभि आह्रियमाणामित्या आह्रियमाणाम् अभिमन्त्रयेत मन्त्रयेत सुरूपवरुषवर्णे सुरूपवरुषवर्ण आ स्वरूपवरुषवर्ण इति सुरूप वर्षवर्णेः एहि इहीति इति पशवः पशवो वै वा इडा इडापशून् पशूनेव पशुन, एवोप ह्वयते हयते यज्ञम् यज्ञम् वै वै देवाः देवा ददुहृण् अदुहृण्यज्ञः असुरागुम् अदुहत् अदुहत्ते ते असुराः असुरा यज्ञदुग्धाः यज्ञदुग्धाः इति यज्ञा दुग्धाः परा यो वै वै यज्ञस्य दोहम् दोहम् विद्वान् विद्वान् यजते यजतेऽपि अप्यन्यम् अन्यम् यजमानम् यजमानम् सा, मे सत्या सत्याशीः आशीरस्य आशीरित्याशीः अस्य यज्ञस्य यज्ञस्य भूयात् भूयादिति इत्याह माहैषः एष वै वैयज्ञस्य यज्ञस्य दोहः दोहस्तेन तेनैव ए वैनम् एनम् दुहे प्रक्ताः प्रक्ता वै वै गौः गौर्दुहे दुहे प्रक्ताः प्रक्तेडाः इडाविलमानाय विलजमानाय दुहे दुह एते एते वै वा इडायै इडायै स्तनाः स्तना इडाः इडोपहूता उपहूतेति उपहूतेत्युपाहूताः इति वायुः वायुर्वत्सः वत्सो यरिः योता होतेनाम् इडामुपह्वजेत उपह्वजेत तर्हि उपह्वजेतेत्युपाह्वजेत तर्हि यजमानः यजमानो होतारम् होतारमीक्षमाणः ईक्षमाणो वायुम् वायुम् मनसा मनसा ध्यायेर् ध्यायेन्मात्रे मात्रे वत्सम् वत्समुपावसृजति उपावसृजति सर्वेण उपावसृजतीत्युपा अवसृजति सर्वेण वै वै यज्ञेन यज्ञेन देवाः देवाः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहार्गम् लोकमायम् आयम् पाकयज्ञेन पाकयज्ञेन मनुः पाकयज्ञेनेति पाकयज्ञेन मनोरश्राम्यत् विश्राम्यत्सा सेलाः इडामनुम् मनुपावर्तत उपावर्ततताम् उपावर्ततेत्युप आवर्तत तान् देवासुराः देवासुरावि देवासुरा इति देवा असुराः गह्वयन्त गह्वयन्त प्रतीचीम् प्रतीचीम् देवाः देवाः पराचीम् पराचीमसुराः असुराः सा देवान् देवानुपावर्तत उपावर्तत पशवः उपावर्ततेत्युप आवर्तत पशवो वै देवानवृणत अवृणतपशवः पशवोऽसुरान् असुरानजहुः अजहुर्यम् यम् कामयेत कामयेता पशुः अपशुः स्यात् स्यादिति इति पराचीम् पराचीम् तस्य तस्येडाम् इडामुप उपह्वयेत व्वयेत पशुः अपशुरेव एव भवति भवयम् यम् कामयेत मयेतपशुमान् पशुमान् स्यात् पशुमानिति पशुमान् स्यादिति इति प्रतीचीम् प्रतीचीम् तस्य तस्येडानाम् यडामुप उपह्वयेत व्वयेतपशुमान् पशुमानेव पशुमानिति पशुमान् एव भवति भवति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सः स त्वयि वायिडाम् इडामुप उपह्वयेत उपयेतयः य इडाम् इडामुपहूय उपभूयात्मानम् उपभूयेत्युपाहूय आत्मानमिडायाम् इडायामुपह्वजेत उपह्वजेतेति उपह्वयेतेत्युपाह्वयेत इति सा सा सा नः नः प्रिया प्रिया सुप्रदोवृत्तिः सुप्रदोवृत्तिर्मघोनी सुप्रदोवर्तिरितिसुप्रदोवर्तिः मघोनीति इष्ट्याः आहेडाः इडामेव एवोपभूय उपभूयात्मानम् उपभूयत्रिबाहूय आत्मानमिडायाम् इडायामुप उपह्वयते मयते व्यस्तम् व्यस्तमिव व्यस्तमिति वि अस्तम् इव वै वा एतत् एतद्व्यज्ञस्य व्यज्ञस्येत् इरिराः इरासामि सामि प्राश्नयन्ति प्राश्नयन्ति सामि प्राश्नन्तीति प्राश्नुन्ति स्वामि मार्जयन्ते मार्जयन्त एतत् एतत्प्रति प्रतिवै वासुराणाम् असुराणाम् यज्ञः यज्ञो वि यच्छिद्यत अच्छिद्यत ब्रह्मणा वा, समदधुः अदधुर्बृहस्पतिः बृहस्पतिस्तनुताम् स्तनुतामिमम् निमन्नः न इति इत्याह आह ब्रह्म ब्रह्म वै वै बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणैव एव यज्ञम् यज्ञपुंसम् सन्दधाति दधाति विच्छिन्नम् विच्छिन्नम् यज्ञम् विच्छिन्नमिति विच्छिन्नम् इमम् दधातु दधात् इति इत्याह आहसन्तत्यै सन्तत्यै विश्वे सन्तत्या इति सन्तत्यै विश्वे देवाः देवा इह इह मादयन्ताम् मादयन्तामिति इत्याह आहसन्त सन्तत्यैव सन्तत्येति सन्तत्य एव यज्ञम् देवेभ्यः देवेभ्योऽनु अनुदिशति दिशति याम् वै यज्ञे यज्ञे दक्षिणाम् दक्षिणाम् ददाति ददाति ताम् कामस्य अस्य पशवः पशवो नु अनसम् सङ्क्रामन्ति कामन्ति सः स एषः पशुः अपशुर्भावकः भावुको भाव यजमानेन यजमानेन खलो खलु वै वै तत् तत कार्यमिति इत्याहुः आहुर्यथा यथा देवत्रा देवत्रा दत्तम् देवत्रेति देवात्रा दत्तम् कुर्वीत कुर्वीतात्मन् आत्मन्पशून् पशून् रमयेत रमयेतेति इति ब्रध्न ब्रध्नविन्वस्व किंवस्वेति इत्याह आहयज्ञः यज्ञो वै वै ब्रध्नः ब्रध्नो यज्ञम् यज्ञमेव एव तत् तन्महयति महयत्यथो रथो देवत्रा रथो इत्यथो देवत्रैव देवत्रेति देवात्रा एव दत्तम् दत्तम् कुरुते पुरुत आत्मन् आत्मन्पुशून् पशून् रमयते रमयते ददतः ददतो मे भेमा मा क्षायि क्षायीति इत्याह आहाक्षिम् अक्षिदिमेव एवोप उपैति एति कुर्वतः कुर्वतो मे मे मा मोप उपदसत् दसदिति इत्याह आह भूमानम् भूमानमेव एवोप उपैति एतीत्येति सर्गश्रवाः सर्गश्रवा इति संश्रवाः हसौवर्चनसः सौवर्चनसस्तुमिञ्जम् तुमिञ्जमौपोदितिम् औपोदितिमुवाच औपोदितिमित्यौप उदितिम् उवाच यत् सत्रिणा गुम्होता होताभोः हो, अभोः काम् कामिडाम् इडामुप उपाश्वथाः उपा अश्वथा इति यदि तामुप ताम उपाह्वे उपा अश्व इति इदिह उवाच उवाचया या, या प्राणेन प्राणेन देवान् प्राणेनेति प्रा अनेन देवान् दाधार दाधारव्यानेन ज्ञानेन ज्ञानेनेति वि अनेन न शनबानेन अपानेन पितृण अपानेनेत्यप अनेन पितॄणिति इति शिणत्ति शृणत्ति सा सा नति इति शिनति शिनत्तीति इतिह उवाच उवाच शरीरम् शरीरम् वै स्यै अस्यैतत् तदुप वा आह्वथाः अह्व इतिह उवाच उवाच गौः गौर्वै वा अस्यै अस्यै शरीरम् शरीरम् नाम् नाम् वाव वावतौ तौ तत् तत्परि पर्यवदताम् अवदताम् या या यज्ञे यज्ञे दीयते दीयते सा, सा प्राणेन प्राणेन देवान् प्राणेनेति प्रा अनेन देवान्नाधार दाधारयया यया मनुष्याः मनुष्या जीवन्ति जीवन्ति सा सा ज्ञानेन ज्ञानेन मनुष्यान् ज्ञानेनेति वि अनेन मनुष्यान् याम् याम् पितृभ्यः पितृभ्यो घ्नन्ति पितृभ्यैः सा पानेन अपानेन पितृण अपानेनेत्यपा अनेन पितरेणयः य एवम् एवम् वेद वेदपशुमान् पशुमान् भवति पशुमानिति पशुमान् भवत्यथ अथ तामुप उमाह्वे आह्व इतिह कोवाच उवाचया या प्रजाः प्रजाः प्रभवन्तीः प्रजायि प्राजाः प्रभवन्तीस्प्रति प्रभवन्तीरिति प्रभवन्तीः प्रत्याभवति आभवतीति आभवतीत्या भवति इत्यन्नम् अन्नम् वै वा अस्यै अस्यैतत् तदुप उपाह्वथाः अह्व इतिह उवाच उवाचौषधयः ओषधयो वै वा अस्याः अस्याम् अन्नमौषधयः ओषधयो वै वै प्रजाः प्रजाः प्रभवन् प्रजा इति प्राजाः प्रभवन्ति स्प्रति प्रभवन्ति रतिप्राभवन्तीः प्रत्या आभवन्ति भवन्त्यह एवम् एवम् वेद वेदान्नादः अन्नादो भवति अन्नाद इत्यन्नादः भवत्यथ अथ वै वै ताम् तामुप उपाह्वे अह्व इतिह उवाच उवाचया या प्रजाः प्रजाः प्रजा इति प्राजाः पराभवन्रनु गृह्णाति पराभवन्तीरिति परा भवन्तेः अनगृह्णाति प्रति अनगृह्णादेत्यनु गृह्णाति प्रत्याभवन्तेः आभवन्तेर्गृह्णाति आभवन्तीरित्या भवन्देः गृह्णातीति इति प्रतिष्ठाम् प्रतिष्ठाम् वै प्रतिष्ठामिति प्रतिष्ठाम् वास्यै अस्यैतत् तदुपवाथाः रह्व इतिह उवाच उवाचेयम् इयम् वै वा अस्यै अस्यै प्रतिष्ठा प्रतिष्ठेयम् प्रतिष्ठेलिप्रतिस्था इयम् वै प्रजाः प्रजाः प्रजा इति प्राजाः पराभवन्तीरणो पराभवन्तीरितिपराभवन्तीः अनुगृह्णाति गृह्णातिप्रति प्रत्याभवन्तीः आभवन्तैर्गृह्णाति आभवन्ति रीत्याः भवन्तेः गृह्णाति यः य एवम् एवम् वेद वेदप्रति प्रत्येव एव तिष्ठति तिष्ठत्यथ अथ वै वै ताम् तामुप उपाह्वे अह्व इतिह उवाच उवाच यस्यै यस्यै निक्रमणे निक्रमणे क्रमणे निक्रमण इति निक्रमणे धृतम् प्रजाः प्रजाः सञ्जीवन्तेः प्रजा सा, इति प्राजाः सञ्जीवन्ते पिबन्ते सञ्जीवन्तीर्ति सा जीवन्तेः पिबन्तीति यदि छिनत्ते शिनत्ति सा न शिनत्ती न चिनत्ते छिणत्तीति इतिह उवाच उवाच प्रा प्रतु तुर्जनयते जनयतीति इत्येषः एष वै वायिडाम् इडामुप इडा उपाह्वथाः उपा अह्व इतिहाच उवाच वृष्टिः वृष्टिर्वै वायिडाः इडावृष्ट्यैः वृष्ट्यै वै वै निक्रमणे निक्रमणे घृतम् निक्रमण इति निक्रमणे घृतम् प्रजाः प्रजाः सञ्जीवन्तेः प्रजा इति प्राजाः सञ्जीवन्तीः पिबन्ति सञ्जीवन्तीरिति सञ्जीवन्तीः पिबन्ति यः य एवम् एवम् वेद वेदप्रैव एव जायते जायतेऽनादः अन्नादो भवति अन्नाद इत्यन्ना अधः भवतीति भवति परोक्षम् वै परोक्षमिति परः अक्षम् वा अन्ये अन्ये देवाः देवा इज्यन्ते युज्यन्ते प्रत्यक्षम् प्रत्यक्षमन्ये प्रत्यक्षमिति प्रति अन्ये यत् यद्यजते यजते ये य एव एव देवाः देवाः परोक्षम् परोक्षमिजन्ते दे, परोक्षमिति परः अक्षम् युज्यन्ते तान् तानेव एव तत् तद्यजति यजति यत् यदन्वाहार्यम् अन्वाहार्यमाहरति अन्वाहार्यमित्यनु आहार्यम् आहरत्येते आहरतीत्याहरति एते वै वै देवाः देवाः प्रत्यक्षम, प्रत्यक्षम् प्रत्यक्षम् यत् प्रत्यक्षमिति प्रतिलक्षम् यद्ब्राह्मणाः ब्राह्मणास्तान् तानेव एव तेना, तेना त्रीणात्यथो अथो दक्षिणा अथोरित्यथो दक्षिणैव एवास्य अस्यैषा एषाथो अथो यज्ञस्य अथो इत्यथो यज्ञस्यैव एव छिद्रम् छिद्रमपि अपि दधाति दधाति यत् यद्वै वै यज्ञस्य यज्ञस्य क्रूरम् क्रूरम् यत् यद्विलिष्टम् विलिष्टम् तत् विलिष्टमिति अन्वाहार्येणान्वाहरति अन्वाहार्येणेत्यनु आहार्येण अन्वाहरति तत् अन्वाहरतीत्यनु आहरति तदन्वाहार्यस्य अन्वाहार्यस्यान्वाहार्यत्वम् आहर अन्वाहार्यस्येत्यनो आहार्यस्य अन्वाहार्यत्वम् देवदूताः अनन्वाहार्यत्वमित्यन्वाहार्य त्वम् देवदूता इति देवादूताः वा एते एते यत् यदृत्विजः ऋत्विजो यत् यदन्वाहार्यम् अन्वाहार्यमाहरति अन्वाहार्यमित्यनो आहार्यम् आहरति देवदूतान् आहरतीत्याहरति देवदूतानेव देवदूतानिति देवदूतान् देव प्रीणाति प्रीणाति प्रजापतिः प्रजापतिर्देवेभ्यः प्रजापतिरिति प्रजापतिः देवेभ्यो यज्ञान् यज्ञान्व्यादिषत् यादिषत्सः यादिषदिति वि आदिशत् सरिविजानः त्रिरिचानोऽमन्यत अमन्यतसः सलेतम एतम् एतमन्वाहार्यम् अन्वाहार्यमभक्तम् अन्वाहार्यमित्यनु आहार्यम् अभक्तमपश्यत् अपश्यत्तम् तमात्मन् आत्मन्नधत्त तमात्मन्न स वै वा एषः एष प्राजापत्यः प्राजापत्यो यत् प्राजापत्यैः प्राजापत्यः इदम् वाहार्यः वाहार्यो यस्य माहार्य इत्यनु आहार्यः यस्यैवम् एवम् विदुषः विदुषोऽवाहार्यः माहार्य आह्रियते माहार्य इत्यनु आहार्यः आह्रियते साक्षात् आह्रियरैत्या आह्रियते साक्षादेव साक्षादिति एव प्रजापतिम् प्रजापतिमृध्नोति प्रजापतिमिति ऋच्चपरिमितः अपरिमितो निरुप्यः अपरिमितैत्यपरिमितः निरुप्योपरिमितः निरुप्य इतिः उप्यः अपरिमितस्प्रजापतिः अपरिमितैत्यपरिमितः प्रजापतिस्प्रजापतेः प्रजापतिरितिप्रजापतिः प्रजापतेराप्तिः प्रजापतेरतिप्रजापतेः आप्ति देवाः देवा वै नैयत् यद्यज्ञे यज्ञे कुर्वत अकुर्वतत् अलसुराः असुराः अकुर्वत ते देवाः देवा एतम् एतम् प्राजापत्यम् प्राजापत्यमन्वाहार्यम् प्राजापत्यमिति प्राजापत्यम् अन्वाहार्यमपश्यन् अन्वाहार्यमित्यनो आहार्यम् अपश्यन्तम् तमन्वाहरन्त अन्वाहरन्द ततः ततो देवाः देवा अभवन्पराः परासुराः असुरा यस्य यस्यैवम् एवम् विदुषः विदुषोऽन्वाहार्यः अन्वाहार्य आह्रियते अन्वाहार्य इत्यनो आहार्यः आह्रियते भवति आह्रियत इत्या आह्रियते भवत्यात्मनाः आत्मना पराः पराः स्यस्य भ्रातृव्यो भवति भवति यज्ञेन यज्ञेन वा इष्टी इष्टि पक्वेन पक्वेन पूर्ती पूर्ति यस्य यस्यैवम् एवम् विदुषः विदुषोऽन्वाहार्यः अन्वाहार्य आह्रियते अन्वाहार्य इत्यनु आहार्यः आह्रियते सः आह्रियत इत्या आह्रियते स तु त्वेव इष्टापूर्तीति इष्टा पूर्ती प्रजापतेर्भागः प्रजापतेरिति प्रजापतेः भागोऽसि असीति इत्याह आह प्रजापतिम् प्रजापतिमेव प्रजापतिमिति प्रजापृतिम् एव भागधेयेन भागधेयेन सम् भागधेयेनेति भागाधेयेन समर्थयति अर्धयत्यूर्जस्वान् ऊर्जस्वान्पयस्वान् पयस्वानिति इत्याह आहोर्जम् ऊर्जमेव एवास्मिन् अस्मिन् पयः अयो दधाति दधाति प्राणापानौ प्राणापानौ मे ए मे पाहि पाहि समानव्यानौ समानव्यानौ मे ए पाहीति इत्याह आशिषम् आशिषमेव आशिषमित्याहाशिषम् एवैताम् एता माशास्ते शास्ते क्षितः रक्षितोऽसि अस्य क्षित्यै रक्षित्यै त्वामा मामे श्रेष्ठाः श्रेष्ठामुत्र अमुत्रामुष्मिन् अमुष्मिन्लोके लोकैति इत्याह आह क्षीयते क्षीयदे मुष्मिन् अमुष्मिन्लोके लोकेऽन्नम् अन्नमितः प्रदानम् इतः प्रदानम् हि इतः प्रदानमिति इतः प्रदानम् ह्यमुष्मिन् अमुस्मिन्लोके लोके प्रजाः प्रजा उपजीवन्ति प्रजा इति प्राजाः उपजीवन्ति यत् उपजीवन्तीत्युपजीवन्ति देवम् एवमभिमृशति अभिमृषत्यक्षितिम् अभिमृषतीत्यभिमृशति अक्षितिमेव एवैनत् एनद्गमयति गमयति न ना, नास्य तस्यामुष्मिन् अमुष्मिन्लोके लोकेऽन्नम् अन्नम् क्षीयते क्षीयत इति क्षीयते बर्हिषोऽहम् अहम् देवयज्ञयाः देवयज्ञयाः प्रजावान् देवयज्ञयेति देव यज्ञयाः देव प्रजावानम् भूयासम् प्रजावानिति भ्रजावान् भूयासमिति आह आह बर्हिषा वै वै प्रजापतिः प्रजापतिः प्रजाः प्रजापतिरति प्रजापतिः प्रजा असृजत प्रजा तेनैव एव प्रजाः प्रजासृजते प्रजा इति प्राजाः सृजतेन राशकंसस्य राशकंसस्याहम् देवयज्ञया पशुमान् देवयज्ञेति देवायज्ञयाः पशुमान् भूयासम् पशुमानिति पशुमान् भूयासमिति इत्याह आह न राशपुंसेन राशपुंसेन वै वै प्रजापतिः प्रजापतिः पशून् प्रजापतिरि प्रजापतिः पशून् तेनैव ते एव पशून् पशून्सृजते सृजते ज्ञेः यज्ञेशिष्टकृतः सृष्टकृतोऽहम् शिष्टकृत इति शिष्टाकृतः अहम् देवयज्ञयाः देवयज्ञयायुष्मान् देवयज्ञेति देवायज्ञयाः आयुष्मान् यज्ञेन यज्ञेन प्रतिष्ठाम् प्रतिष्ठाम् गमेयम् प्रतिष्ठामिति प्रतिष्ठाम् इत्याह आहायुः आयुरेव एवात्मन् आत्मन् धत्ते धत्ते प्रति प्रतियज्ञेन यज्ञेन तिष्ठति तिष्ठति दर्शपूर्णमासयोः दर्शपूर्णमासयोर्वै दर्शपूर्णमासयोरिजिदर्श पूर्णमासयोः वै देवाः देवा उज्जिम् उज्जिरिमनो उज्जिरिमित्युदोचितिम् अनूर उदचयन् अजयन्दर्शपूर्णमासाभ्याम् दर्शपूर्णमासाभ्यामसुरान् दर्शपूर्णमासाभ्याम्जिदर्श पूर्णमासाभ्याम् असुरानप अपानदन्त अनदन्ताग्नेः अग्नेरहम् अहमुद्यतिम् उद्यतेमनो उज्यतिमित्युरोचितिम् अनूद् उज्जयेषम् ज्येषमिति आहदर्शपूर्णमासयोः दर्शपूर्णमासयोरेव दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः एव देवतानाम् देवराणाम् यजमानः यजमान उद्यितिम् उद्यितिमनो उज्यतिमित्यरोचितिम् अनूद् उज्जयति देतिदर्शपूर्णमासाभ्याम् दर्शपूर्णमासाभ्याम् भ्रातृव्यान् दर्शपूर्णमासाभ्यामिति दर्शपूर्णमासाभ्याम् भ्रातृव्यानप अपमृदते मुदते वाजपतीभ्याम् वाजपतीभ्याम् वै वाजवतीभ्यामिति वाजपतीभ्याम् योहति योहत्यन्नम् अन्नम् वै वै वाजः अन्नमेव एवाव अपरुन्धे वृन्धे द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्य प्रतिष्ठिप्रतिस्थितिः यो वै यज्ञस्य यज्ञस्य द्वौ द्वौ दोहौ दोहौ यजत उभयदः उभयद एव यज्ञम् यज्ञम् दुहे दुहे पुरस्तात् पुरस्ताच्च चोपरिष्टात् उपरिष्टाच्च त्वैषः एष वै वा अन्यः अन्यो यज्ञस्य यज्ञस्य दोहः दोह इडायाम् इडायामन्यः अन्यो यः होताः होता आ, होता यजमानस्य यजमानस्य नाम नाम गृह्णेयात् गृह्णेयात्तर्हि तर्हि ब्रूयाद् ब्रूयादा एमाः इवा अग्मन् अग्मन्नाशिषः आशिषो दोहकामाः आशिषैत्या आशिषः दोहकामा इति दोहकामा इति दोहकामाः इति सर्गस्तुताः सर्गस्तुता एव सर्गस्तुता इति एव देवताः देवतादुहे दुहेथोः अथो उभयतः अथो इत्यथोः उभयत एव यज्ञम् यज्ञम् दुहे दुहे पुरस्तात् पुरस्ताच्च चोपरिष्टात् उपरिष्टाच्च रोहितेन रोहितेन त्वाग्निः अग्निर्देवताम् देवताम् गमयतु इत्याह आहैते एते वै वै देवाश्वा यजमानः देवाश्वा इति देवाश्वाः यजमानः प्रस्तरः प्रस्तरो यत् प्रस्तर इति प्रास्तरः यदेतैः एतैः प्रस्तरम् प्रस्तरम् प्रहरति प्रस्तरमिति प्रास्तरम् प्रहरति देवाश्वैः प्रहरति इति प्राहरति देवाश्वैरेव एव यजमानम् यजमानगम् स्वर्गम् स्वर्गम् लोकम् स्वर्गमयि स्वभावम् लोकम् गमयति गमयति विरे ते मुञ्चामि इत्याह आहैषः एष वै अग्नेर्विमोकः विमोकस्तेन विमोक तेनैव एवैनम् एनम् विमुञ्चति मुञ्चति विष्णोः विष्णोः शञयोः शृञोरहम् संयोरिति संयोः अहम् देवयज्ञयाः देवयज्ञया यज्ञेन देवयज्ञेति देवयज्ञयाः यज्ञेन प्रतिष्ठाम् प्रतिष्ठाङ्गमेन प्रतिष्ठामिति प्रतिष्ठाम् गमेयमिति पित्राः आह यज्ञः यज्ञो वै मयि विष्णुः विष्णुर्यज्ञे यज्ञ एव एवान्ततः अन्ततःप्रति प्रतिष्ठति तिष्ठति सोमस्याहम् अहम् देवयज्ञयाः देवयज्ञया सुरेताः देवयज्ञयेति देवायज्ञयाः सुरेतारेतः सुरेतारिति सो रेताः रेतोऽधिषीया तिषीयेति इत्याह आह सोमः सोमो वै वै रेतोधाः रेतोधास्तेन तेनैव एव रेतः प्रेतः आत्मन् आत्मम् भर्ते भर्ते त्वष्टोः त्वष्टोरहम् अहम् देव यज्जिलाः देवयज्ञया पशूनाम् देवयज्ञयेति देव यज्जिलाः पशूनागुम् रूपम् रूपम् पृषेयम् पृषेयमिति इत्याह आहत्वष्टाः त्वष्टा वै वै पशूनाम् पशूनाम् मिथुनानाम् मिथुनानागुम् रूपकृत् रूपकृतेन रूपकृदिति तेनैव एव पशूनाम् पशूनागुम् रूपम् रूपमात्मन् आत्मम् धत्ते धत्ते देवानाम् देवानाम् पत्नीः पत्नीरग्निः अग्निर्गृहपतिः गृहपदलि यज्ञस्य गृहपदलिति गृहपतिः यज्ञस्य मिथुनम् मिथुनम् तयोः तयोरहम् अहम् देवयज्ञला देवयज्ञिया मिथुनेन देव यज्ञयेति देव यज्ञयाः मिथुनेनप्र प्रभूयासम् प्रभूयासमिति इत्याह आहैतस्मात् एतस्माद्वै वै मिथुनात् मिथुनात् प्रजापतिः प्रजापतिर्मिथुनेन प्रजापतिकृतिप्रजापतिः मिथुनेनप्र प्राजायत अजायत तस्मात् तस्मादेव एव यजमानः यजमानो मिथुनेन मिथुनेनप्रजायते जायते वेदः वेदोऽसि वे असि वृत्तिः वृत्तिरसि असि विधेय विधेयेति इत्याह आह वेदेन वेदेन वै वै देवाः देवासुराणाम् दे असुराणाम् वित्तम् रिक्तम् वेद्यम् वेद्यमविन्दन्त अविन्दन्त तत् वेदस्य वेदत्वम् वेधत्वम् वे यद्यत् वेदत्वमिति वेदात्वम् यद्यद्भ्रातृर्यस्य यद्यदिति यत् यत् भ्रातृव्यस्य अभिध्याये यत् अभिध्यायेत्तस्य अभिध्यायेदित्यभिध्यायेत् तदेव एवास्य अस्य सर्वम् सर्वम् वृङ्गे वृङ्गे घृतवन्तम् घृतवन्तम् तुलायिनम् घृतवन्तमिति घृतावन्तम् लायिनगुम् रायः रायस्पोषम् पोषगुम् सहस्रिणम् सहस्रिणम् वेदः वेदो ददातु ददातु वाजिनम् वाजिनमिति इत्याह आह प्रसहस्रम् सहस्रम् स्य अस्य प्रजायाम् प्रजायाम् वाजी प्रजायामिति प्राजायाम् वाजी जायते जायते यः एवम् एवम् वेद वेदेति वेद ध्रुवाम् वै वैरिच्यमानाम् रिच्यमाना यज्ञः यज्ञो नु अनुरिच्यते रुच्यते यज्ञम् यज्ञम् यजमानः यजमानो यजमानम् यजमानम् प्रजाः प्रजाध्रुवाम् प्रजा इति प्राजाः ध्रुवामाप्यायमानाम् आप्यायमानाम् यज्ञः आप्यायमानामित्या आप्यायमानाम् यज्ञो नो अन्वा आप्यायते जायते यज्ञम् यज्ञम् यजमानः यजमानो यजमानम् यजमानम् प्रजाः प्रजाः प्रजा इति प्राजाः आप्यायताम् जायताम् ध्रुवा ध्रुवा घृतेन हृतेनेति इत्याह आहध्रुवाम् ध्रुवामेव एवा आप्यायति त्यायिता तामाप्यायमानाम् आप्यायमानाम् यज्ञः आप्यायमानामित्या आप्यायमानाम् यज्ञो नो आप्यायते ज्यायते यज्ञम् यज्ञे यजमानः यजमानो यजमानम् यजमानम् प्रजाः प्रजास्प्रजापतेः प्रजा इति प्राजाः प्रजापतेरति प्रजापतेः विभान्नाम विभानिदिबीभान् नामलोकः लोकस्तस्मिन् तस्मिन् गत्वा त्वा दधामि विधामि सः सह यजमानेन यजमानेनेति इत्याह आहायम् अयम् वै वै प्रजावदे प्रजापतेः प्रजापतेर्विभान् प्रजापतेरति प्रजापतेः विभान्नाम विभानिदिबीभान् नामलोकः लोकस्तस्मिन् लो तस्मिन्नेव एवैनम् एनम् दधाति दधाति सः सः यजमानेन यजमानेन यच्छते यच्छतैव इव यद्यजते यजते यत् यद्यजमानभागम् यजमानभागम् प्राश्नाति यजमानभागमिति यजमानभागम् प्राश्नात्यात्मानम् प्राश्नातीति प्राश्नाति आत्मानमेव एव प्रीणाति प्रीणात्येतावान् एतावान एता वै वै यज्ञः यज्ञो यावान् यावान् यजमानभागः यजमानभागो यज्ञः यजमानभाग इति यज्ञो यजमानः यजमानो यत् यद्यजमानभागम् यजमानभागम् प्राश्नाति यजमानभागमिति यजमानभागम् प्राश्नाति यज्ञे प्राश्नातीति प्राश्नाति वाग यज्ञ एव वा� यज्ञम् यज्ञम् प्रति प्रतिष्ठापयति स्थापयत्येतत् एतद्वै वै सूयवसम् सूयवसपुंसोदकम् सूयवसमिति सूयवसम् सोदकयत् सोदकमिति सा उदकम् यद्बर्हिः बर्हिश्च चावः आपश्च चैतत् एतद्यजमानस्य यजमानस्यायतनम् आयतनयत् आयतनमित्या आयतनम् यद्वेदिः वेदिर्यते यत्पूर्णपात्रम् पूर्णपात्रमन्तर्वेदि पूर्णपात्रमिति पूर्णपात्रम् अन्तर्वेदि निनयति अन्तर्वेदी इत्यन्तः वेदि निनयति स्वे निनयतीति निनयति आयतने सूयवसम् आयतनवित्यायतने सूयवसकम् सोदकम् सूयवसमिति सूयवसम् सोदकम् कुरुते सोदकमिति सा उदकम् कुरुते सत् सरसि असि सत् सन्मे भूयाः भूया इति इत्याह आहापः आपो वै वै यज्ञः यज्ञापः आपोऽमृतम् अमृतम् यज्ञम् यज्ञमेव एवामृतम् अमृतमात्मन् आत्मन् धत्ते धत्ते सर्वाणि सर्वाणि वै मयि भूतानि भूतानि व्रतम् व्रतमुपयन्तम् उपयन्तमनु उपयन्तमित्युपायन्तम् अनुप उपयन्ति यन्ति प्राच्याः दिशि दिशि देवाः देवा ऋत्विजः इत्याह आहेशः एष वै वैदर्शपूर्णमासयोः दर्शपूर्णमासयोरवभृथः दर्शपूर्णमासयोरितिदर्शपूर्णमासयोः अवभृतो यानि अवभृष इत्यवाभृसः यान्येव एवैनम् एनम् भूतानि भूतानि पदमुपयन्तम् उपयन्तमनूपयन्ति उपयन्तमित्युपायन्तम् अनूपयन्ति तैः अनूपयन्तीत्य उपयन्ति तैरेव एव सः सहावभृतम् अवभृथमव अवभृथमित्यवाभृथम् अवैति एति विष्णुमुखाः विष्णुमुखा वै विष्णुमुखा इति विष्णोमुखाः वै देवाः देवाश्छन्दाभिः छन्दोभिरिति छन्दहाभिः इमाल्लोकान् लोकानपजय्यम् अनपजय्यमभि अनपजय्यमित्यनपजय्यम् अभ्यजयन् अजयन यद् यद्विष्णुक्रमान् विष्णुक्रमान् क्रमते विष्णुक्रमान् य विष्णुक्रमान् क्रमते विष्णुः भूत्वा यजमानः यजमानच्छन्दोभिः छन्दोभिरिमान् छन्दोभिरितिछन्दहाभिः महान् लोकान् लोकानपजय्यम् अनपजय्यमभि अनपजय्यमित्यनपजय्यम् अभिजयति श्री श्रीकृष्णोः विष्णोः क्रमः क्रमोऽ अस्यभिमातिहा अभिमातिहेति अभिमातिहेत्यभिमातिहा इत्याह आह गायत्री वे वै वै पृथिवी पृथिवी त्रैष्टुभम् त्रैष्टभमन्तरिक्षम् अन्तरिक्षम् जागति जागते द्योः यौरानुष्टुभेः आनुष्टुभेऽर्द्विषः आनुष्टुभिरित्यानोष्टुभिः्छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवेमान् इमान् भवतान् भवतान्यथापूर्वम् यथापूर्वमभि यथापूर्वमिति यथापूर्वम् अभिजयति जयतीति जयति अगन्मसुवः सुवस्वः सुवरगन्म अगन्मेति इत्याह आह सुवर्गम् सुवर्गमेव स्वर्गमिति स्वहागम् एव लोकम् लोकमेति एति सन्दृशः सन्दृशस्ते सन्दृश इति सन्दृशः ते मा यत्ते ये तपस्तस्मै तस्मै ते ते मा मा वृक्षि आ वृक्षि वृक्षीति इत्याह आह यथायजुः यथायजुरेव यथायजुरिति एतत्सुभोः सुभोरसि सुभोरिति सोभोः असि श्रेष्ठः श्रेष्ठोरश्मीनाम् रश्मीनामायुर्धाः आयुर्धा असि आयुर्धा इत्यायोः अस्यायोः आयुम्मे मे धेहि धेहिरि इत्याह आहाशिषम् आशिषमेव आशिषमित्याशिषम् एवैताम् एतामा आशास्ते शास्ते प्र एषः एषोस्मात् अस्माल्लोकात् लोकाच्चवदे च्यवदे यः यो विष्णुक्रमान् विष्णुक्रमान् क्रमदे विष्णुक्रमान् यदि विष्णोक्रमान् क्रमदे सुवर्गाय स्वर्गाय हि स्वर्गाय यदि सुवहागाय हि लोकाय लोकाय विष्णुक्रमाः विष्णुक्रमाः क्रम्यन् दे, क्रम दे ये विष्णुक्रमा क्रम्यन्ते ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सः स तु त्वयि वै विष्णुक्रमान् विष्णुक्रमान् क्रमेत विष्णुक्रमान् इति विष्णोक्रमान् क्रमेदयः ययिमान् इमान् लोकान् लोकान् धातुव्यस्य ध्रातृव्यस्य संविद्य संविद्य पुनः संविद्येति संविद्य पुनरिमम् इमम् लोकम् लोकम् प्रत्यवरोहेत् प्रत्यवरोहेदिति प्रत्यवरोहेदिति प्रति अवरोहेत् इत्येषः एष वै वा अस्य अस्य लोकस्य लोकस्य प्रत्यवरोहः प्रत्यवरोहो यत् प्रत्यवरोह इति प्रति अवरोहः यदाह आहेदम् इदमहम् अहममुम् अमुम् भ्रातृव्यम् भ्रातृव्यमाभ्यः आभ्यो दिग्भ्यः दिग्भ्यो अस्यै दिग्ध्य इति दिवः दिव इति इमान् इमानेव इमाने एव लोकान् लोकान् धातृव्यस्य भ्रातृव्यस्य संविद्य संविद्य पुनः संविद्येति संविद्य पुनरिमम् इमम् लोकम् लोकम् प्रत्यवरोहति प्रत्यवरोहति सम् प्रत्यवरोहतीति प्रति अवरोहति सञ्ज्योतिषा ज्योतिषाभूवम् अभूवमिति इत्याह आहास्मिन् अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठति तिष्ठत्यैन्द्रियम् नैन्द्रियमावृतम् आवृतमन्वावर्ते आवृतमित्या आवृतम् अन्वावर्त इति अन्वावर्त इत्याह आहासौ असौ वै त्वा इन्द्रस्तस्य तस्यैव एवावृतम् आवृतमनु आवृतमित्या आवृतम् अनुपर्यावर्तते पर्यावर्तते दक्षिणा पर्यावर्तत इति परि आवर्तते दक्षिणा पर्यावर्तते पर्यावर्तते स्वम् पर्यावर्तत इति आवर्तते स्वमेव एव वीर्यम् वीर्यमनु अनुपर्यावर्तते तस्मात् पर्यावर्तत इति आवर्तते तस्माद्दक्षिणः दक्षिणार्थः अर्ध आत्मनः आत्मनो वीर्यावत्तरः वीर्यावत्तरोथो वीर्यावत्तर इति वीर्यावत अथो आदित्यस्य अथो इत्यथो आदित्यस्यैव एवावृतम् आवृतमनु आवृतमित्या आवृतम् अनुपर्यावर्तते पर्यावर्तते सम् पर्यावर्तन इति परि आवर्तते समहम् अहम् प्रजयाः प्रजया सम् प्रजयेति समयाः मया प्रजा प्रजेति उजयप्राचः इत्याह आशिषम् आशिषमेव आशिषमित्याहाशिषम् एवैताम् एतामा आशास्य शास्ते समिद्धः समिद्धो अग्ने समिद्ध इति सम् युद्धः अग्नेमेः मे दीदिः दीदिः समेद्धा समेद्धा ते समेद्धेति संयेद्धा ते अग्नेः अग्ने दीद्यासम् दीद्यासमिति इत्याह आह यथा यजुः यथा यजुरेव यथा यजुरिति यथा यजुः एवैतर् एतद्वसुमान् वसुमान् यज्ञः वसुमानिति वसोमान् यज्ञो वसीयान् वसीयान् भूयासम् भूयासमिति इत्याह आहाशिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्ते बहु बहु वै वै गार्हवत्यस्य गार्हवत्यस्यान्ते गार्हपत्यस्ये दिगार्हः पत्यस्य अन्ते मिश्रम् मिश्रमिव इव चर्यते चर्यताग्निपामानीभ्याम् आग्निपामानेभ्याम् गारहपत्यम् आग्निपामानेभ्यामित्याग्निपावमानीभ्याम् गार्हपत्यमुप गार्हवत्यमिदिगारहा पत्यम् उपतिष्ठते तिष्ठते पुनाति पुनात्येव एवाग्निम् अग्निम् पुनीते पुनीत आत्मानम् आत्मानम् द्वाभ्याम् द्वाभ्याम् प्रतिष्ठत्यै प्रतिष्ठित्या अग्नेः प्रतिष्ठित्या इति प्रतिष्ठत्यै अग्ने गृहपते गृहपत इति ग्रहपत इति इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एतच्छदम् शतम् हिमाः हिमा इति गणाः आह शतम् श्रतन्ताः त्वा हेमन्तान् हेमन्तानिन्धिषीय इन्द्रिषीयेति वावैतत् एतदाह आह पुत्रस्य पुत्रस्य नाम नाम गृह्णाति गृह्णात्यन्नादम् अन्नादमेव अन्नादमित्यन्नादम् एवैनम् एनम् करोति करोति ताम् आशिषमित्याशिषम् आशासे शासे तण्डवे तन्द्वे ज्योतिष्मतीम् ज्योतिष्मतीमिति ब्रूयाद् ब्रूयाद्यस्य यस्य पुत्रः पुत्रो जातः स्यात् स्यात् तेजस्वी तेजस्वेव एवास्य अस्य ब्रह्मवर्चसी पुत्रः ब्रह्मवर्चसी ब्रह्म वर्चसी पुत्रो जायते जायते ता आशिषमा आशिषमित्या आशिषम् आशासे शासे अमुष्मै अमुष्मै ज्योतिष्मतीम् ज्योतिष्मतीमिति इति ब्रूयात् ब्रूयाद्यस्य पुत्रः पुत्रो जातः स्यात् तेजः तेन एव एवास्मिन् अस्मिन् ब्रह्मवर्चसम् ब्रह्मवर्चसम् दधाति ब्रह्मवर्चसमिति ब्रह्म वर्चसम् दधाति यः को वै वै यज्ञम् यज्ञम् प्रयुज्य प्रयुज्य न प्रयुज्य इति प्रायुज्य अविमुञ्चति स भवति भवति कः कस्त्वायुनर्ति युनर्धि सह सत्त्वाः त्वावि इत्याह आह प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वयैकः कप्रजापतिना प्रजापतिनैव एवैनम् एनम् युनक्ते युनक्ति प्रजापतिना प्रजापतिना वि प्रजापतिनेति प्रजापतिना विमुञ्चति मुञ्चति प्रतिष्ठित्या ईश्वरम् प्रतिष्ठित्या इति प्रतिष्ठित्यै ईश्वरम् वै वै व्रदम् व्रदमभिसृष्टम् अभिसृष्टम् प्रदहः अभिसृष्टमित्यभिसृष्टम् व्रदहोऽग्नेः व्रदहः इति प्रादहः अग्ने व्रतपदे व्रतपदे व्रतम् व्रतपदैरि व्रतापतेः व्रतमचारुषम् अचारिषमिति इत्याह आह व्रतम् व्रतमेव एव विसृजते सृजते शान्तिः शान्त्य अप्रदाहाय अप्रदाहाय पराङ् अप्रदाहायेत्यप्रादाहाय पराङ्गाव वावयज्ञः यज्ञनेति एति ननि निवर्तते वर्तते पुनः पुनर्यः यो वै वैयज्ञस्य यज्ञस्य पुनरालम्भम् पुनरालम्भम् विद्वान् पुनरालम्भमिति पुनः आलम्भम् विद्वान् यजते यजते तम् तमभि अभिनि निवर्तते वर्तते यज्ञः यज्ञो बभूव स आ बभूव बभूवेति इत्याह आ एषः एषवै यज्ञस्य पुनरालम्भः पुनरालम्भस्तेन पुनरालम्भ इति पुनः आलम्भः तेनैव एवैनम् एनम् पुनरा आलभते लभतेन वरुद्धा अनवरुद्धा वै अनवरुद्धेऽपि न वरुद्धा वा एतस्य एतस्य विराड् विराज्ञः आहिताग्निरित्याहिता अग्निः सन्न सभः असभः पशवः पशवः खलु खलु वै वै ब्राह्मणस्य ब्राह्मणस्य सभा सभेष्ट्वा इष्ट्वा प्राङ् प्राङ्क्रम्य उत्क्रम्य ब्रूयात् उत्क्रम्येत्युदक्रम्य उत्करम्या ब्रूयाद्गोमान् गोमागुम् अर्ने गोमानिति गोमान् गो अग्नेऽभिमान् अभिमागुमश्वि अभिमानित्यभिमान् अश्वी यज्ञः यज्ञेति इत्यव अवसभाम् सभागम् रुन्धे रुन्धे प्रसहस्रम् सहस्रम् पृशून् पशोर, पृशूणा आप्नोति आप्नोत्या आस्य अस्य प्रजायाम् प्रजाया अम् वाजी प्रजायामिति प्राजायाम् वाजी जायते जायत इति जायते एव सवितः सविदः प्रसव स्वयज्ञम् यज्ञम् प्रसव स्वयज्ञपतिम् यज्ञपतिम् भगाय यज्ञपतिरिति यज्ञापतिम् भगाय दिव्यः दिव्योगम् धर्वः तम् धर्व इति अम् धर्वः केतपोः केतम् केतपोरिति केतपोः केतन्नः वाचस्वतिः पतिर्वाचम् वाचमद्य अद्यस्वदाति स्वदातिनः मैदिनः इन्द्रस्य वज्रः वज्रोऽसि असि वार्त्रघ्नः वार्त्रघ्नस्वयाः वार्त्रघ्न इति वार्त्रघ्नः त्वयायम् अयम् वृत्रम् वृत्रम् बध्यात् बध्यादिति बध्यात् वाचस्य नु न प्रसवे प्रसवे मातरम् प्रासवे मातरम् मही महीमदितिम् अदितिर्नाम adi नाम वचसा वचसा करामहे इति करामहे यस्यामिदम् इदम् विश्वम् विश्वम् भुवनम् भुवनमाविवेश आविवेश तस्या अम् आविवेशेत्या आविवेश स्यान्नः नो देवः देवः सविता सविधा धर्म धर्मसाविशत् साविशदिति साविशत् अप्सन्तः अप्सृत्यपुत्सु अन्तरमृतम् अमृतमप्सु वप्सु भेषजम् भेशचं, अप्सृत्यपोत्सु भेषजमपाम् अपामुत अपाम उत प्रशस्तिषु प्रशस्तिष्वश्वाः प्रशस्तिष्वपि विप्राशस्तिषु त्वायुर्वाः वा त्वाः त्वामनः अनुर्वा वा त्वाः त्वागन्धर्वाः गन्धर्वाः सप्तविपुंसतिः सप्तविपुंसतिरिति सप्ताविपुंसतिः ते अग्रे अग्रे अश्वम् अश्वमायुञ्जन् आयुञ्जन्ते ते अस्मिन् अस्मिन् अस्मिन जवम् जवमा आदधुः अदधुरित्यदधुः अपा अन्नपाद नपादाशुहेमन् आशुहेमनयः आशु हेमन्नित्याशु हेमन् य ऊर्मिः ऊर्मिः कगुद्मारे ककुद्मान् प्रतो ऊर्धिः ककुद्मानिति कगुद्माने प्रतो ऊर्तिर्वाजसातमः प्रतो तेनायम् अयम् वाजम् वाजगंसेत् सेदिति सेत् विष्णाः क्रमः क्रमोऽसि असि विष्णाः विष्णाः क्रान्तम् क्रान्तमसि असि विष्णाः विष्णोर्विक्रान्तम् विक्रान्तमसि विक्रान्तमिति विक्रान्तम् अस्यङ्कौ अङ्कौ न्यङ्कौ न्यङ्कावभितः न्यङ्काविदिनि अङ्कौ अभितो रथम् रथञ न्तम् वाताग्रम् वाताग्रमो वाताग्रमिति वाता अग्रम् अनुसञ्चरन्तौ सञ्चरन्तौ दूरे हेतिः सञ्चरन्ताविति सञ्चरन्तौ दूरे हेतिरिन्द्रियावान् दूरे हेतिरिति दूरे हेतिः इन्द्रियावान् पदत्री इन्द्रियावानिति इन्द्रियाभान् पदत्री ते तेनः नोऽग्नयः अग्नयः पारयन्तीति पारयन्तौ देवस्याहम् अहगुंसविदुः सविदुःप्रसवे प्रसवे बृहस्पतिना प्रसवैरिप्रासवे बृहस्पतिना वाजुजिताः वाजुजितावाजिम् वाजुजितेदि वाजाजिताः वाजिम् जयेषम् जयशम् देवस्य देवस्याहम् अहगुंसविदुः सविदुःप्रसवे प्रसवे बृहस्पतिना प्रसवैरिप्रासवे बृहस्पतिनावाजिता वाजुजिता वरसिष्ठम् वार्जुजितेति वाजाजिता वरसिष्ठम् नाकम् नाकम् गृहेयम् गृहेयमिन्द्राय इन्द्राय वाचम् वदत वदतेन्द्रम् इन्द्रम् वाजम् वाजम् जापयत जापयतेन्द्रः इन्द्रो वाजम् वाजमजैत् अजयदित्यजैत् अश्वाजनि वाजिनि वाजेषु वाजेषु वाजिनीवति वाजिनीवत्यश्वान् वाजिनीवतीति वाजिनी अश्वान्समत्सु समत्सु वाजया समत्सिति समत्सु वाजयेति वाजया अर्वासि असि सर्तिः सर्तिरसि असि वाजी वाज्यसि असि वाजिनः वाजिनो वाजुम् वाजिम् धावत धावत मरुता मरुताम् प्रसवे प्रसवे जयत प्रसव इति प्रासवे त्रियदवि योजना योजनामिमेध्वम् मिमेध्वमध्वनः अध्वनस्कभ्नीत स्कभ्नीतकाष्ठाम् काष्ठाङ्गच्छत गच्छत वाजे वाजे वाजे वाजेवत वाजे वाज इति वाजे वाजे अपरतवाजिनः वाजिनो नः नो धनेषु धनेषु विप्राः विप्रा अमृताः अस्य मध्वः मध्वः पिबत पिबतमादयध्वम् मादयध्वम् तृप्ताः तृप्तायात यातपथिभिः पथिभिर्देवयानैः पथिभिरिति पथिभिः तेनः नो अर्वन्तः अर्वन्तो हव हवम् हवनश्रुत इति हव विश्वे रे विश्वे वाजिनः वाजिन इति वाजिनः मितद्रवःसहस्रसाः मितद्रवैति मिताद्रवः सहस्रसा मेधसाता सहस्रसा इति सहस्रसाः मेधसाता स निश्यवः मेधसातेति मेधासाताः स निश्यवैति स निश्यवः ये रत्नम् रत्नगम् समिथेषु समिथेषु जभ्रिरे समिथेष्विति समिथेषु जभ्रिलेषम् शन्नः नो भवन्तु भवन्तु वाजिनः वाजिनो हवेषु हवेष्विति हवेषु देवतातामितद्रवः देवतातेति देवाताः मितद्रवः स्वर्गाः मितद्रव इति मिताद्रवः स्वर्का इति सु अर्काः गम्भयन्तोऽहिम् अहिमृकम् रठगुम् रक्षागुंसि रक्षागुंसि समेमि समेयम् यस्मद् अस्मद्युयवन् युजवन्नमीवाः अमीभा इत्यमीवाः एष स्यः स्य वाजी वाजीक्षिपणिम् क्षिपणिम् तुरण्यति तुरण्यति ग्रीवायाम् ग्रीवायाम् बद्धः बद्धोऽविरक्षे अविरक्ष आसनि अरिरक्ष इत्यविरक्षे आसनीत्यासनि कृतम् दधिक्राः अधिक्रा अनुदधिक्रा इति दधिक्राः अनुसन्तवीयी त्वत् सन्तवीयीत्वत्पथाम् सन्तवीयीत्वदिति सन्तवीयीत्वत् तथामङ्का पुंसि अङ्कादश्यनो अम्भापनीफणत् आपनीभणदित्यापनीभणत् उतस्मात् स्मास्य अस्य द्रवतः द्रवतस्तुरण्यतः तुरण्यतः पर्णम् पर्णम् नवेः वेरणो अनुवादि वादिप्रगर्धिनः प्रगर्धिन श्येनस्येव इव धृजतः धृजतो अङ्कसम् अङ्कसम् परि रक्रागुण्ण इति दधिक्रागुण्णः सहोर्जा ओर्जा दरित्रदः दरिद्रत इति तरित्रदः आमाजस्य राजस्य प्रसवः प्रसव जगम्याद प्रसव इति प्रासवः जगम्यादा आद्यावापृथिवी द्यावापृथिवी विश्वशम्भो ्या वा पृथिवी यद्या वा पृथिवी विश्वशम्भो इति विश्वाशम्भो आमा मा गन्ता गन्ताम् पितरा पितरा मातरा मातरा च च आमा सोमः सोमो अमृतत्वाय अमृतत्वाय गम्यात् अमृतत्वायेत्यमृतात्वाय गम्यादिति गम्यात् वाजिनो वाजितः वाजजितो वाजुम् वाजजित इति वाजाजितः वाजगुम् सरिष्यन्तः सरिष्यन्तो वाजम् वाजम् जेष्यन्तः देष्यन्तो बृहस्पतेः बृहस्पतेयर्भागम् भागमव अवजिघ्रत जिघ्रतवाजिनः वाजिनोवाजजितः वाजजितोवाजम् वाजजित इति वाजाजितः वाजगुम्स्रवागुंसः ससर्वागुंसोवाजम् वाजम् जिगिवागुंसः जिगिवागुंसो बृहस्पतेः बृहस्पते भागेनि निरुढ्वम् ऋढ्वमियम् इयम्बः मःसा सा सत्या सत्या सन्धा सन्धा भोभूत् सन्धेति सन्धा इन्द्रेण समधध्वम् समध्वमजीजिपत समध्वमिति सम् अध्वम् अजीजिपत वनस्पतयः वनस्पतय इन्द्रम् इन्द्रम् वाजुम् क्षत्रस्योल्बम् उल्बमसि असि क्षत्रस्य क्षत्रस्य योनिः योनिरसि रसि जाये जाया एहि सुवः सुवो रोहा व रोहावरोहा व रोह वहि इसुवः सुवरहम् अहनौः सुवः सुवोरोक्ष्यामि रोक्ष्यामि वाजः वाजश्च प्रसवः प्रसवश्च प्रसवैरिप्रासवः चापिजः अपिजश्च अपिजैत्यबीजः चक्रतुः कृतुश्च चसुवः सुरश्च च मूर्धा मूर्धा चव्यश्नियः व्यश्नियश्च व्यश्निय इति रश्नियः चान्द्यायनः आन्द्यायनश्च चान्त्यः अन्त्यश्च स भौवनः भौवनश्च च भुवनः भुवनश्च चाधिपतिः अधिपतिश्च अधिपतिः चेति च आयुर्यज्ञेन यज्ञेन कल्पताम् कल्पताम् प्राणः प्राणो यज्ञेन प्राण इति प्रा अनः यज्ञेन कल्पताम् अपानो यज्ञेन अपान इत्यपा यज्ञेन कल्पताम् कल्पनाम् ज्ञानः ज्ञानो यज्ञेन ज्ञान इति अनः यज्ञेन कल्पताम् तम्पदाम् चक्षुः चक्षुर्यज्ञेन यज्ञेन कल्पनाम् कल्पदाग्त्रम् श्रोत्रम् यज्ञेन यज्ञेन कल्पताम् कल्पराम् मनः मनो यज्ञेन यज्ञेन कल्पताम् कल्पदाम् वाग् वाग्यज्ञेन यज्ञेन कल्पताम् कल्पतामात्मा आत्मा यज्ञेन यज्ञेन कल्पताम् कल्पदाम् यज्ञः यज्ञो यज्ञेन यज्ञेन कल्पताम् कल्पतापुंसः सुवान् देवाकुम् अगन्म अगन्मामृताः अमृता अभूम अभूम प्रजापतेः प्रजापतेष् प्रजाः प्रजापतेर्जिप्रजापतेः प्रजाभूम प्रजा इति प्राजाः अभूम सम् अहम् प्रजयाः प्रजयासम् प्रजयेति प्राजयाः सम्मयाः मया प्रजा प्रजासम् प्रजेति प्राजा समहम् अहगम् रायः प्रायस्पोषेण सम्मया मया राजः प्रायस्पोषः पोषोन्नाय अन्नायत्वा त्वा त्वा त्वा त्वा त्वान्नाद्याय अन्नाद्यायत्वा अन्नाध्यायेत्यन्ना अद्याय त्वावाजाय स्वामृतम् अमृतमसि असि पुष्टिः पुष्टिरसि असि प्रजननम् प्रजननमसि प्रजननमिति प्राजनम् असीत्यसि राजस्येमम् इमम् प्रसवः प्रसवः सुषुवे प्रसव इति प्रासवः सुषुवे अग्रे अग्रे सोमम् सोमकुम् राजानम् राजानमौषधीषु ओषधीष्वप्सो अप्सित्यपुप्सु अस्मभ्यम् अस्मभ्यम् मधुमतीः अस्मभ्यमित्यस्माभ्यम् मधु मधुमतीर्भवन्तु मधुमतीरिति मधुमतीः भवन्तु वयम् वयकम् राष्ट्रे राष्ट्रे जाग्रियाम जाग्रियाम पुरोहिताः पुरोहिता इति पुरोहाहिताः वाजस्येदम् प्रसवः प्रसवः प्रसव इति आ बभूव इमाचा इमा च च विश्वा विश्वा भुवनानि भुवनानि सर्वतः सर्वत इति सर्वतः स विराजम् विराजम् परि विराजमिति विराजम् पर्येति एदि प्रजानन् प्रजानन् प्रजाम् प्रजानन्निति प्रजानन् प्रजाम् मृष्टिम् प्रजामिति प्रराजाम् पुष्टिम् वर्धयमानः वर्धयमानो अस्मे अस्मे इत्यस्मे वाजस्येमाम् इमाम् प्रसवः प्रसवः शिश्रिये प्रसवैरिप्रासवः शिश्रिये दिवम् दिवमिमा इमा चरिश्वाः विश्वा भुवनानि भुवनानि सम्राड् सम्राड् इति सम्राड् अदिच्छन्दम् दापयतु दावयतु प्रजानन् प्रजानन् रयिम् प्रजानन्दिति नः सर्ववीराम् सर्ववीरान्नि सर्ववीरामिति सर्वा वीराम् नियच्छतो यच्छ त्रिति यच्छतो अग्ने अच्छ वदेह इहनः नः प्रति प्रतिनः नः सुमनाः सुमना भव सुमना इति सोमनाः भवेदि भव प्रणः नो यच्छ यच्छ भुवः पते धनदाः धनदासि धनदा इति धनाः हसिनः नस्त्वम् त्वमिधि त्वम् रणः नो यच्छतु यच्छत्वर्यमा अर्यमा प्रभगः भगः प्रबृहस्पतिः बृहस्पतिरदि बृहस्पतिः प्रदेवाः देवाः प्रोद उत सूनृताः सूनृताप्रवाग् वाग्देवी देवी ददातु ददातु नः न हिलिनः हर्यमणम् बृहस्पतिमिन्द्रम् इन्द्रम् दानाय दानाय चोदय चोदयेति चोदय वाचम् विष्णुम् विष्णुभुम् सवितारम् सवितारम् च वाजिनम् वाजिनमिति वाजिनम् सोमघुम् राजानम् राजानम् वरुणम् वरुणमग्निम् अग्निमन्वारभामहे अन्वारभामह सूर्यम् सूर्यम् ब्रह्माणम् ब्रह्माणम् च बृहस्पतिम् बृहस्वदेमिति बृहस्पतिम् देवस्य त्वा प्रासविदुः सवितः प्रसवे प्रसवेश्विनाः प्रसव इति प्रासवे अश्विनार्बाहुभ्याम् बाहुभ्याम् पोष्णः बाहुभ्यामिति बाहोभ्याम् पोष्णोहस्ताभ्याम् वाचः वाचो यन्तुः यन्तुर्यन्त्रेण यन्त्रेणाग्नेः अग्ने स्वा त्वासाम्राज्येन साम्राज्येनाभि साम्राज्यने दिसाम् इन्द्रस्य बृहस्पतेः बृहस्पतेः स्वा त्वासाम्राज्येन साम्राज्येनाभि साम्राज्यने सिञ्चामीति सिञ्चामि अग्निरेकाक्षरेण एकाक्षरेण वाचम् एकाक्षरेणेत्येका अक्षरेण वाचमुत् उदजयद् अश्विनौ द्व्यक्षरेण द्व्यक्षरेण प्राणापानौ द्व्यक्षरेणेति द्वि अक्षरेण प्राणापानामुत् प्राणापानाविति प्राणापानौ उदजयताम् अजयताम् विष्णुः विष्णुस्त्र्यक्षरेण त्र्यक्षरेण त्रीन् त्र्यक्षरेणे द्वित्री अक्षरेण त्रीन् लोकान् लोकान्त् उदजेत् अजेत् सोमः चतुरक्षरेण चतुष्पदः चतुरक्षरेणेति चतुः अक्षरेण चतुष्पदः पशून् पदः पशून्त् उदजेत् अजेत् पूषा पूषा पञ्चाक्षरेण पञ्चाक्षरेण पङ्क्तिम् पञ्चाक्षरेणेति पञ्चा अक्षरेण पङ्क्तिमुत् कुत चेत् अजयद्धाता धाता शरक्षरेण शरक्षरेण षट् षडाक्षरेणेति षट् अक्षरेण षडतोन् ऋतूनुत् उदजयत् अजयम् मरुतः मरुतः सप्ताक्षरेण सप्ताक्षरेण सप्ताक्षरेणेति सप्ता अक्षरेण सप्तपदाकुम् शक्वरीम् सप्तपदामिति सप्तापदाम् शकवरीमुत् उदजयम् अजयम् बृहस्पतिः बृहस्पतिरष्टाक्षरेण अष्टाक्षरेण गायत्रीम् अष्टाक्षरेणेत्यष्टाक्षरेण गायत्रीमुत् उदजयत् अजयन्मित्रः मित्रो नवाक्षरेण नवाक्षरेण त्रिवृतम् नवाक्षरेणे तिनवा अक्षरेण त्रिवृतग्रस्तोमम् त्रिवृतमिति त्रिवृतम् स्तोममुत् उदचयत् दशाक्षरेण विराजम् दशाक्षरेणे तिदशा अक्षरेण विराजमुत् विराजमिति विराजम् उदचयत् अजयदिन्द्रः इन्द्र एकादशाक्षरेण एकादशाक्षरेण त्रिष्टुभम् एतादृशाक्षरेणेत्येकादश अक्षरेण त्रिष्टुभमुत् उदजयत् अजयद्विश्वे विश्वे देवाः देवा द्वादशाक्षरेण द्वादशाक्षरेण जगतीम् द्वादशाक्षरेणेति द्वादश अक्षरेण जगतीमुत् उदजयन् वसवस्त्रयोदशाक्षरेण त्रयोदशाक्षरेण त्रयोदशम् त्रयोदशाक्षरेणेति त्रयोदश अक्षरेण त्रयोदशग्रस्तोमम् त्रयोदशमिति त्रयः दशम् त्वममुत उदजयन् अजयन् रुद्राः रुद्राश्चतुर्दशाक्षरेण चतुर्दशाक्षरेण चतुर्दशम् चतुर्दशाक्षरेणे चतुर्दशाक्षरेण चतुर्दशग्रस्तोमम् चतुर्दशमिति चतुर्दशम् त्वममुत उदजयन् अजयन्नादित्याः आदित्याः पञ्चदशाक्षरेण पञ्चदशाक्षरेण पञ्चदशम् पञ्चदशाक्षरेणेऽधि पञ्चदशा अक्षरेण पञ्चदशग्स्तम् पञ्चदशमिति पञ्चादशम् स्तमुद उदजयन् अजयन्नदिजिः अतिजिषोडशाक्षरेण षोडशाक्षरेण षोडशम् षोडशाक्षरेणेति षोडशा अक्षरेण षोडशग्दस्वामम् उदचेत् अचेत् प्रजापतिः प्रजापतिः सप्तदशाक्षरेण प्रजादशरिति प्रजापतिः सप्तदशाक्षरेण सप्तदशम् सप्तदशाक्षरेणेति सप्तदशाक्षरेण सप्तदशग्दस्वामम् सप्तदशमिति सप्तादशम् सोममुद उदचेत् अजयदित्यजेत् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि दृशनम् दृषदम् त्वा दृषदमिति दृसदम् त्वा दृषदम् दृशदम् भुवनसदम् दृशदमिति दृसदम् भुवनसदमिन्द्राय भुवनसदमिति भुवनासदम् इन्द्राय दृष्टम् पृष्टम् गृह्णामि गृह्णाम्येषः एष ते ते योनिः यो निरिन्द्राय उपयाम गृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः अस्यप्सृषदम् अप्सृषदम् त्वा अप्सृषदमित्यक्सुसदम् वा घृतसलम् घृतसलम् व्योमसदम् घृतसलमितिघृतासदम् व्योमसलमिन्द्राय व्योमसदमिति व्योमासदम् इन्द्राय दुष्टम् दुष्टम् गृह्णामि गृह्णाम्येषः एषतेः ते योनिः योनिरिन्द्राय इन्द्राय त्वा को बलामगृहीतः उपलामगृहीतोऽसिमगृहीत इत्युपलाम गृहीतः असि पृथिविशदम् पृथिविशदम् त्वा पृथिविशदमिति पृथिवीसदम् त्वान्तरिक्षसदम् अन्तरिक्षसदम् नाकसदम् अन्तरिक्षसदमित्यन्तरिक्षासदम् आकसदमिन्द्राय नाकसदमिति नाकासदम् इन्द्राय जुष्टम् दुष्टम् गृह्णामि गृह्णाम्येषः एष ते ते योनिः योनिरिन्द्राय इन्द्राय त्वेदित्वा ये ग्रहाः पञ्चजनीनाः पञ्चजनीनायेषाम् पञ्चजनीना इति पञ्च जनीनाः येषाम् तिस्रः तिस्रः परमजाः परमजा इति परमजाः देव्यः कोशः कोशः समुज्जितः समुद्जित इति समुद्जितः तेषाम् मिशिप्रियाणाम् ऋषिप्रियाणामिषम् ऋषिप्रियाणामिति वीषिप्रियाणाम् इषमोर्जम् ऊर्जपुंसम् समग्रभीम् अग्रभीमेषः एष ते ते योनिः योनिरिन्द्राय इन्द्रायत्वा त्वे दित्त्वा उद्वयसुम् सूर्यरश्मिम् उद्वयसमित्युत् वयसम् सूर्यरश्मिकम् समाभृतम् सूर्यरश्मिति सूर्यारश्मिम् समाभृतमिति सम् आभृतम् अपाकम् रसस्य रसस्य यः यो रसः रसस्तम् कम्बः वो गृह्णामि गृह्णाम्युत्तमम् उत्तममेषः उत्तममित्युतमम् इन्द्रायत्वा त्वेदित्वा तया विष्ठाः पिष्ठाविति वैस्थाः जनयन्कर्वराणि कर्वराणि सह स हि हि धृणिः धृणिरुः उरुर्वराय वराय गातुः गातुरिति गातुः सप्रति प्रत्युत् उदैयेत् अयिद्धरुणः धरुणो मध्वः मध्वो अग्रम् अग्रग्स्वायाम् स्वायाञ्यत् यत्तनुवाम् तनुवान्तनोम् तनोमैरयत ऐरयतेत्यैरयत उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि प्रजापतये प्रजापतये त्वा प्रजापतये त्वा दुष्टम् दुष्टम् गृह्णामि गृह्णाम्येषः एषतेः ते योनिः योनिः प्रजापतये प्रजापतये त्वा प्रजापतये त्वे जित्वा अहमासा आह मासानु अन्य विद्वनानि वनान्यो अन्वोषधीः ओषधीरनु अनुपर्वतासः पर्वदास इति पर्वदासः नन्विन्द्रम् इन्द्रगुम् रोदसी रोदसी इति रोदसी वावशाने अनु वावशाने इति वावशाने अन्वापः आपो अजिहत अजिहतजायमानम् जायमानमिति जायमानम् अनु ते ते दायिमहे मह इन्द्रियाय इन्द्रियाय सत्रा सत्रादेये ते विश्वम् विश्वमनु अनुवृत्रहत्ये वृत्रहत्य इति वृत्राहत्ये अनुक्षत्रम् क्षत्रमनु अनुसः सहो यजत्र यजत्रेन्द्र इन्द्रदेवेभिः देवेभिरनु अनुते हे नृषह्ये नृषह्य इति इन्द्राणीमासु आसु नारिषु नारिषु सुपत्नीम् सुपत्नीमहम् सुपद्नीमिति सोपत्नीम् अहमश्रवम् अश्रवमित्यश्रवम् न हि ह्यस्याः अस्या अपरम् अपरम् चलशलजलसाः जरसा मरते मरते पतिः पतिरिति पतिः नाहम् अहमिन्द्राणि इन्द्राणि नारण कारणसख्युः सख्युर्वृषाकपेः वृषाकपेर्दृतेर्षाकपेरिति वृषाकपेः कृतयत्रिते यस्येदम् इदमप्यम् अप्यगम् हविः हविः प्रियम् प्रियम् देवेषु देवेषु गच्छति गच्छतीति गच्छति यो जातः प्रथमो मनस्वान् मनस्वान् देवः देवो देवान् देवान् रतना पर्यभूषत् पर्यभूषदितिपरि अभूषत् यस्य शुष्मात् शुष्माद्रोदसी रोदसी अभ्यसेतान् रोदसी इति रोदसी अभ्यसेतान् नम्णस्य ब्रह्णस्य मह्ना मह्नासः स जनासः जनास इन्द्रः इन्द्र इतिन्द्रः आते ते महः मह इन्द्र इन्द्रोऽतीत्युग्र उग्रसमन्यवः समन्यवो यत् समन्यव समन्य इति सामन्यवः यत्समरन्त समरन्तसेनाः समरन्तेति समरन्त सेना इति सेनाः पतादि मातेः ते मनः मनो विश्वद्रियक विश्वद्रियग्नि विश्वद्रियगिति विश्वाद्रियक विचारीत चारीदिति चारीत मानः नो वर्धिरा आभर भरा दद्धि तन्नः नः प्रदाशुषे दाशुषे दातवे दातवे भूरि भूरि यत् यत्ते तैति ते नव्ये देशने देशने शस्ते शस्ते अस्मिन् अस्मिन्ते तमुक्थे उक्थे, उक्थे प्रब्रवाम प्रवाम वयम् वयमिन्द्र इन्द्रस्तुवन्तः स्तुवन्तैः स्तुवन्तः आतु तूभर भरमाकिः एतत्परि परिष्ठाद् स्थाद्विद्म विद्मा, विद्मा हि कृत्वा त्वा वसुपतिम् वसुपतिम् वसूनाम् वसुपतिमिति वसुपतिम् वसूनामिति वसूनाम् इन्द्र यत् यत्ते ते माहिनम् माहिनम् दत्रम् दत्रमस्ति अस्त्यस्मभ्यम् अस्मभ्यम् तत् तद्धर्यश्व हर्यश्वप्र हर्यश्वेति हरि अश्व प्र यन्धि यन्धीति यन्धि प्रदातारनुम् हवामहे प्रदातानमिति इन्द्रमा आ हविषाः हविषा भयम् वयमिति वयम् उभाहि हि हस्ता हस्ता वसुना वसुना प्रणस्व प्रणस्वा यच्छ दक्षिणात् दक्षिणादा ओत उत सव्यात् सव्यादिति सव्यात् प्रदाता व्रज्री प्रदादेति प्रदाता व्रज्रीवृषभः वृषभस्तु तुराषाक्षुष्मी शुष्मी राजा राजा वृत्रः वृत्रः सोमपावाः वृत्रहेति वृत्राः सोमपावेति सोमापावाः अस्मिन् यज्ञे यज्ञे बर्हिषि बर्हिष्या आ निषद्य निषद्याथ निषद्येति निसद्य तथा भवयजमानाय भवय यजमानायशम् शंयोः योरिदियोः इन्द्रः सुत्रामाः सुत्राभाः स्ववान् सुत्रामेति सोत्रामाः स्वभागुम् अवोभिः स्ववानिति स्वान् अवोभिः स्मृणीकः विश्ववेदा इति विश्वावेदाः बाधकान् द्वेषः अभयम् अभयम् कृणोतु कृणोतु सुवीर्यस्य पतयः सुवीर्यस्येति सौवीर्यस्य पतयः स्याम श्यामेति श्याम तस्य भयम् वयं सुमतौ सुमतौ यज्ञियस्य सुमताविदि सौमतौ यज्ञस्यापि अपि भद्रे सौमनसे सौमनसे श्याम श्यामेति सुत्रामा स्ववान् सुत्रामेति सोत्रामा स्वभागम् इन्द्रः स्ववानिति स्वान् इन्द्रो अस्मे अस्मे आराद् अस्मेत्यस्मे चिद्वेषः द्वेषः समुतः सनुतर्ययोत् योत्पिजीयोत रेवतीर्मः वः सधमादः सधमादैन्द्रेः सधमादैति सधामादः इन्द्रे सन्तु तुविवाजा इति तुविजाः क्षमन्तो याभिः याभिर्मदेम मदेमेति मदेम प्रोषु प्रो इति प्रो स्वस्मै अस्मै पुरोरथम् पुरोरथमिन्द्राय पुरोरथमिति पुरः रथम् इन्द्राय शूषम् शोषमर्चत अर्चतेत्यर्चत अभीते चित् चिदो लोककृत् लोककृत्सङ्गे लोककृदिति लोकाकृत् सङ्गे समत्सु समत्सो वृत्रः इति वृत्राः अस्माकम् बोधि बोधिचोदिता चोदिता न भाम् नभन्तामन्यकेषाम् अन्यकेषामित्यन्यकेषाम् अन्यके जागाधि अधिधन्वसु धन्वस्विति धन्वसु प्रथमकाण्डे सप्तमः प्रश्नः